गणेशपुराणं क्रीडाखण्डम् अध्यायं नैन्टि फोर् क उवाच तदो मुनिसुदाया प्रदीक्षन्धस्थिताश्च ये तेषां जयरवैर्व्योम गर्जितं च दिगन्धरं चिक्रीडुस्ते पुनस्तत्र नानानृत्यैश्च गायनैः एवं रमत्सु बालेषु सार्धया दिवाकरे पितरौ तान दृष्ट्वाइव दृष्ट्वैव ग्राममध्ये गृहे प्रत्येकं यष्टिमादाय ययुः सर्वे शिशून्प्रति रमन्तो विविधा क्रीडामध्ये कृत्वा गुणेश्वरम् नृत्यन्तं नर्तयन्तं च तं च ते mm -hmm. पितर ऊचुः त्वया विनानो नो बालाश्च नाचरन् स्नानभोजने आचाराध्ययने चाभिब्राह्मण्यं विनयं तथा ततः परस्परं प्राहुर्गतक्रोधा निरीक्ष्यतम् एतस्य ताडने बुद्धिर्गतैनं वीक्ष्य नः कुतः कथयामो यदि शिवौ किं करिष्यतः अनेके निषदा दैत्या बालेनैव महाबलाः वयं देशान्तरं यामो भीत्या तव गुणेश्वर क एवं वदत्सु लोकेषु पिदद्धे स गुणेश्वरः दूरदेशे तदो बालाव्यलोकयन् धावयित्वा पितॄं त्यक्त्वा गुणैशं ते ययुः पुनः क्रीडन्तस्ते ययुः शीघ्रं गौतमाश्रममुत्तमम् ध्यानस्थं तं मुनिं वीक्ष्य पचन्तीं तस्त्रियं च ते गुणेश्यो गान्मध्यदेश्यं जग्राहौदनपात्रकम् ददौ तेभ्यो विभज्यान्नम् प्रार्थयामास सादरं मत्सङ्गेन चिरम् कालं यूयं सर्वे बुभुक्षिताः सावकाशम् प्रभुञ्जध्वं तध क्रीडामहे पुनः अहल्या तं चुकोपाशु ममान्नं स्पृष्टवान् कथं न कृतो वैश्वदेवो वा नैवेद्यश्च पदार्धकः विसृज्य ध्यानं किं कुर्याद्गौतमो मुनिसत्तमः उद्धापयामास तदा ध्यानस्तं मुनि सप्तमं स उद्धाय ददर्शाध गौतमः सकलार्भकान् जक्षतोन्नं क्षुधायुक्तान् बभाषे च गुणेश्वरं गौतम उवाच महतो पुत्रतां प्राप्य कथमन्यायकृद् भवान् अत्यद्भुदानि कर्माणि श्रोत्वा तेत्त्वां वयं पुरा परात्परतरं देवं परब्रह्मस्वरूपिणं मन्यामहे बालभावं कुरु शेत्वं गुणेश्वर क उवाच धृत्वा करं स पार्वत्या गृहमागमद करे धृत्वान्नसखिदं तत्पात्रं निजमन्दिराद उवाच मादस्ते बालो नित्यमन्याय कृन्मम अद्य त्वं कथितं व्याधक्क्यं कार्यं गौर्यतः परं युदोऽवागमनं दूरे मन्यसे यदि तद्वद क उवाच तदोरुषो समायुक्ता श्रुत्वा वाक्यं मुनीरिदम् ताडयामासयष्ट्यादं वमन्ती नेत्रदो नलम् उवाच जमुनिं गौरी प्रणदा क्रोधसंयुधा ममापि जमुनेत्रासो जायतो जन्मदोऽस्यः द्रष्टव्या चाक्षसकृदां कियन्दो विघ्नः सञ्चयाः स्त्रियः कुत्रापि नायान्ति पुनिपुङ्गवः अयं तु सर्वतो दुष्टो मुनिपुत्रा विभेदकः ममात्मजयिति जनो नैनं शापं प्रयच्छति बध्वैनं हस्तपादेषु तत् समक्षं शिवा सुतं गृहमध्ये दुःसंस्थाप्य तद्गृहं पिदधे दृढं मैवं मैवं मदन्यादो गौतमस्वाश्रमं प्रति तदस्ते बालका सर्वे शोचस्तन्तं गुणेश्वरं कथं नो दर्शनं चास्य भविष्यति कदा न द्वारं दत्त्वा दृढं मध्ये स्थापितो गिरिकन्यया एवं तेषु वदत्सेव तन्मध्ये स ययक्षणाद जनन्याकडिदेशेऽपि दृश्यते तद्गृहेऽपि च ऊचुस्तां गौरिपुत्रस्ते निःसृतो गृहमध्यतः पश्यति स्म गेहमध्ये बद्धमे गुणेशर बहिस्तमुनिपुत्र साप्यत यं किचिस्तन पनायुला शिवा निषिधा सा सुधस्तस्त गृह उत्काढ्यद्वारम् साबालम् उक्त्वा स्तन्यम् ददौ मुदा गौतमस्वाश्रमम् व्यादो देवतार्चनमारभद गुणेशरूपान् सोपश्यतृप्तान् देवां पुरप्रकीर्णमन्नम् च चतदो विस्मितमानसः चिन्तयामास मनसि दुर्बुद्धिस्तु कृता मया उमायै कथितं सर्वमन्नपात्रं प्रदर्शितं तया स व्यक्तो व्यक्तस्य कारणं परात्परतरो देवो यस्मिंस्तृप्ते महाफलम् आगत्य बुभुजे बालैः सार्धं तु मुनिसम्भवैः मोहिद मययाचा से पूर्व्ञाशिषं नदम क उवाच अहल्यान पाक चकाराभुतमनस सोपिध्यान स्थित भूतकर्म सी श्री गणेशपुराणे क्रीडाखंडे चुर्नव्या ओ oh.